गणेशशारदा गुरुभ्यो नमः अथ अथ आत्मषट्कं षट्कं वा वा निर्वाण्कं षट्कं मनो बुद्ध्यहङ्कारचिचितानिनाहं न च श्रोत्रजिह्वे न च नेत्रे चव्यो मूमिर्णतेजो न वायुः चिदानन्दरूपः शिवोऽहं शिवोऽहं चिदानन्दरूपः शिवोऽहं शिवोऽहम् न च प्राणसन्न्यो न वैपञ्च वायुः न रूपः शिवोऽहं शिवोऽहं चिरानन्दरूपः शिवोऽहं शिवोऽहं न मे द्वेषरागौ न मे लो भोः मदुनैव मे नैवमाच न धर्मो न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोऽहं शिवोऽहं शिवो चिदानन्दरूपः शिवोऽहं शिवो शिवो न पुण्यं न पापम् न सौख्यं न दुःखं न मन्त्रो न तीर्थं न वेदा न यज्ञाः अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूपः शिवोऽहं शिवोऽहम् चिदानन्दरूपः शिवोऽहं शिवोऽहं न मे मृत्युशङ्का न मे जातिवेदः न मे मृत्युशङ्का न मे जातिवेदः माता न जन्मा नभं दर्णमित्रं गुरुर्नैव शिष्यः चिदानन्दरूपः शिवोऽहं शिवोऽहं चिदानन्दरूपः शिवोऽहं शिवोऽहम् अहं निर्विकल्पो निराकाररूपो विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणा सदा मे समत्वं न मुक्तिर्नवन्दः न्द शिवोहं शिवोहं चिदानन्दरूप शिवोहं शिवोऽहम् इति श्रीमच्छङ्कराचार्यविरचितम आत्माशक्तं सम्पूर्णम् ॐसत्सत्